श्रीहरये नमः अत एकसप्ततितमोऽध्यायः श्रीशुक उवाच इत्युदीरितमाकर्ण्यन् देवर्षे उद्धवो ब्रवीत् सभ्यानां मतमाज्ञायन् कृष्णस्य च महामतिः उद्धव उवाच यदुक्तं ऋषिणा देवं सा चिव्यं कार्यं पैतृष्वसेयस्य रक्षाचरणैषिणां यष्टव्यं राजसूयेन दिक्चक्रजयिना विभो अतो जरासुत जय मम अस्माकं च महान् अर्थो ह्येते नैव भविष्यति यशश्च तव गोविन्द राज्ञो भक्तान् विमुञ्चतः सभै दुर्विषहो राजा नागायुतसमो बले बलिनामपि चान्येषां भीमं समबलं विनां, द्वैरते सतु ते जेतव्यो मा सथा शौकिनीयुतः ब्रह्मण्योऽभ्यभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हि चेत् ब्रह्म वेषधरो गत्वा तम् हनिष्यति न सन्देहो द्वैरते तव सन्निधौ निमित्तं परमीशिष्य विश्वसर्गनिरोधयोः हिरण्यगर्भः सर्वश्च कालस्यारूपिणस्तव गायन्ति ते विसदकर्म गृहेषु देव्यो राज्ञां स्वस् ्रुवतमात्मा विमोक्षणं च गोभ्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणं मुनयो वयं च जरासन्तवधः कृष्ण भूर्यर्तायोपकल्पते प्रायः पाकविपाकेन स्त्रीसुख उवाच विद्युद्धवचो राजन् सर्वतो भद्रमच्युतं देवर्षिर्युवृद्धाश्च कृष्णश्च प्रत्यपूजयन् अथादिशत्प्रयाणाय भगवान् देवकीसुतः भृत्यां दारुकजैत्रा तेन् अनुज्ञाप्य गुरून् विपुः निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छान् सङ्कर्षणम् अनुज्ञाप्य यदुराजं च शत्रुहन् सुतोपनीतं स्वरतम् आरुहद्गरुडध्वजः ततो रथद्विभढसातिनायकैं करालया परिवृत आत्मसेनया मृदङ्गभैर्यानकसङ्खोमुकैके प्रघोषघोषितककुभो निराक्रमद् नृवाञ्चिकाञ्चन शिबिकाभिरच्युतं सखात्मजापति मनुसंव्रताययोः वराम्भराभरण विलेपनस्रजः सुसंवृतान् रुभिरसि शर्मपाणिभिः नरोष्ट्रगोमहिषहकरास्वतर्यनः करेणुभि परिजनभारयोक्षितः स्वलङ्कृता कटकुटिकभलाम्भरात्यो भस्करायुयुरधियुज्य सर्वतः भलं बलं बृहद्वजपटचत्रचामरैर्वरायुधाभरणकिरीटवर्मभीः दिवांशुभिस्तुमुलरवम्भौरवेर्यथार्णवशुभिततिमिङ्गिलोर्मिभिः अथो मुनेर्यधुपतिना सभाजितः प्रणम्य तं कृतिविधद्विहाय सा निशम्य तद्व्यवसितम् आहृतार्हणो मुकुन्दसन्दर्शननिर्भृधेन्द्रियः राजदूतम् उवाचे तं भगवान् प्रीणयन् गिरा मा भैष्टदूतभद्रं वो गतायिष्यामि मा इत्युक्तप्रस्थितितो धूतो यथा वधन् बधन्रपान् तेऽपि सन्दर्शनं सौरे प्रत्यक्षन्यन्मुक्षवहा आनर्त्रसौवीर मरून्स्तीर्त्वा विनशनं हरिहे गिरिन्नदीरतियाय पुरग्रामव्रजाकरान् ततो दृषद्वतीं तीर्त्वा मुगुन्तोत सरस्वतीं चक्रप्रस्तमदागम तमुभागतमाकर्ण्यं प्रीतो दुर्दर्शनं ऋणाम् अजातशत्रुर्निरगत् सोपाध्याय सुहृत् वृतः गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा अव्ययात्सहृषि केशं प्राणाप्राणमिवा दृष्ट्वा विक्लिन्न हृदय कृष्णं स्नेहेन पाण्डवः चिरादृष्टं प्रियतमं सस्वजेत पुनः पुनः दोर्भ्यां परिष्वजरमामलालयं मुकुन्दगात्रं नृपतिर्हुताशुभः लेभे परां निर्वृतिम् अश्रुलोचना हृष्यत्नुर्विस्मृतलोकविभ्रमः तं मातुलेयं परिरभ्यरर्वृतो भीम स्मयन्प्रेम जवाकुलेन्द्रियः यमौ कि च सुहृत्तमं मुधा प्रवृद्धबाष्पा परिरेभिरेच्युतम् अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः मानितो मानयामास कुरु सृञ्जयकैकयान् सूतमागतगन्धर्व वन्दिनश्चोपमन्त्रिणः मृदङ्गसङ्कपटः ब्राह्मणाश्चारबिन्दाक्षं तुष्टुवोर्नन् ऋतुर्जकुः एवं सुहृद् विपर्यस्थ पुण्यश्लोकशिखामणिः भगवान् विवेशालङ्कृतं पुरम् वर्तम संसिक्तवर्तमकरिणामदघन्ततोयैः चित्रध्वजैकनकतोरणपूर्णकुम्भैः मृष्टात्मभिनवधुकूलविभूषणश्रक् गन्थैर्नृपि युवतिभिश्च विराजमानम् उद्दीप्तदीपबलिभिप्रति सद्मजाल निर्यातधूपरुचिरं बिलसत्पताकं मूर्धन्य हेम कलसै रजतोरुशिंहैर् जुष्टं ददर्श भवनैः कुरु राजधाम प्रातं निशंयनरलोचनपानपात्रम् औत्सुक्य विश्लितकेशदुकूलभन्धाः सद्यो विसृज्य गृहकर्मपतिंश्च तल्पे द्रष्टुं ययोर्युवत तस्मिन् सुसङ्कुल इभास्तरतद्विभद्भिः कृष्णं शभार्यम् उपलभ्य गृहाधिरूढाः नार्यो विकीर्य कुसुमैर्मनसोपगुह्यै सुस्वागतं विधतु उत्स्मयवीक्षितेन ऊचु स्त्रियः पतिनिरीक्षमुगुन्तपत्नीः ताराय दोटुपकसा किमकार्यमुभिः यच्चक्षुषां पुरुषमौलि उदारः स लीलावलोककलयोत्सवमातनोति तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः चक्रुशपर्यां कृष्णाय श्रेणिमुख्या कथैन अन्तःपुरजनैः प्रीत्या मुगुन्तः पुल्ललोचनैः स सम्भ्रमै अभ्युपेद प्राविसत् कृष्णं त्रिभुवनेश्वरं प्रीतात्मोत्थाय पर्यङ्कात् सष्णुषा परिषस्वजे गोविन्दं गृहमानीय देवदेवे समादृतः पूजायां नाविधत्कृत्यम् प्रबोधोपहतो नृपः पितृष्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः स्वश्रवाश्चोदिता कृष्णा कृष्णपत्नीश्च सर्वसहा आनर्चरुक्मिणीं सत्याम् भद्रां जां भवतीं तथा काळिन्दीमित्रविन्दां च शैभ्यां नाग्नजितिं सतीं अन्याश्चाभ्यागतायास्तु वाशश्रृङ्मण्डनादिभिः सुखं निवासयामासराजो जनार्दनं ससैन्यं सानुगामात्यं सभार्यं च नवं तर्पयित्वा काण्डवेन वह्निं पाल्गुनसंयुतः मोचयित्वा मयं येन राज्ञे दिव्या सभा कृत उभासकतिचिन्मासान् राज्ञप्रियचिकीर्षया विहरन् रतमारुह्य पाल्गुनेन भटैर्व्रतः इति श्रीमद्भगवते महापुराणे दशमस्कन्ते उत्तरार्धे कृष्णस्येन्द्रप्रस्थगमनं नाम एकसप्तददिमोऽध्यायः सर्वत्र गोपिका गोविन्दा गोविन्द गोविन्धा सद्गुरुनाथमहराजिके जै